अथ एकोननवत्यधिकशततमोऽध्यायः वैशम्पायन उवाच अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः ऊचुस्तेभिर्न कर्तव्या वयं युत्स्यामहे परान् तानेवं विप्रान् अर्जुनः प्रहसन्निवा उवाच प्रेक्षका पार्श्वतः अहमेनानदि शतशो विकिरन् चरैः वारयिष्यामि सङ्क्रुद्धान् मन्त्रैराशीविशानि वा इति तद्धनुरानम्य शुल्कावाप्तं महाबलः भ्रात्रा भीमेन सहितः तस्थौ गिरिवाचलः ततः कर्णमुखान् दृष्ट्वा क्षत्रियान्युद्धदुर्मदान् तौ गजौ प्रति ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः आहवेहि द्विजस्यापि वधो दृष्टो युयुत्सतः इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान् ततः कर्णो महातेजा जिष्णुं प्रति ययौरणे युद्धार्थी वासिताहेतोः गजः प्रतिगजं यथा भीमसेनं ययौशल्यो मद्राणामीश्वरो बली दुर्योधनादयः सर्वे ब्राह्मणैः सह सङ्गताः मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ततोऽर्जुनः प्रत्यविध्यदा पतन्तं शितैशरैः कर्णं वै श्रीमान् विकृष्य बलवद्धनुः